हरि ओम् श्रीसीता रामचन्द्राभ्याम् नमः अथ श्रीमद्वाल्मीकि रामायणे अयोध्याखण्डे चत्वारिंशत् सर्गः दशरथम् परिक्रम्य सीता लक्ष्मणस्य श्रीरामस्य कौसल्या प्रभृति मातृ प्रति प्रणामः सुमित्राया लक्ष्मणम् प्रत्युपदेश रथ उपविश्य रामादीनाम् वनम् प्रस्थानम् पौरै राज्ञिभिः च सह दशरथस्य सशोकावस्था अथ रामा च सीता च लक्ष्मणश्च कृताञ्जलिः उपसङ्गृह्य राजानम् प्रकोधीनाम् प्रदक्षिणम् तं समनुज्ञाप्य धर्मज्ञा सह सीतया राघवशोक सम्मूढु जननीम् अभ्यवादयत् अन्वक्ष्यम् लक्ष्मणो भ्रातु कौसल्यामभ्यवदयत् अपि मातु सुमित्राय जग्राहचरणो पुनः तं मन्दमानम् रुदति माता सौमित्रिमब्रवीत् हितकामा महाबाहु मूर्ध्युपाघ्राय लक्ष्मणम् सृष्टस्त्वं वनवासाय स्वनुरक्तः सुज्झने रामे प्रमादम् आकार्षी पुत्र भ्रातरि गच्छति व्यसने वा समृद्धो वा गति एष तव नघ एष लोके सुताम् धर्मो यज्येष्ठवचको भवेत् इदम्भिवृत्तमुचितम् कुलस्यास्य सनातनम् दानम् दीक्षा च यज्ञेषु तनोत्यागो मृधेषु हि लक्ष्मणम् ते मुक्तासौ संसिद्धम् प्रिय राघवम् सुमित्र गच्छ गच्छेति पुनः पुनरुवाचदम् रामं दशरथम् विद्धि माम् विद्धि जनकात्मजानम् अयोध्याम् अट्टवीम् विद्धि गच्छ तात यथा सुखम् ततस्त्वमन्त्र काकुत्स्थम् प्राञ्जलि वाक्यमब्रवीत् विनीतो विनयज्ञश्च मातलीर्वासवम् यथा कथमारोह भद्रन्ते राजपुत्र महायशः क्षिप्रम् त्वाम् प्रापयिष्यामि यत्र मां राम चतुर्दश हि वर्षाणि वक्तव्यानि वने त्वया यानि देव्या प्रचोदितः तम् रथम् सूर्यसङ्घाशम् सीताहुट्टेन चेतस अरुरोहे वरारोह कृत्वालङ्कारमात्मनः वनवासम् हि सङ्ख्याय वासांस्याभरणानि च भर्तारम् न गच्छन्ति सीता ये शचरो वदौ तथैव युधजातानि भ्रातृभ्याम् कवचानि च रथोपस्थे प्रविञस्य सचर्म कठिनं चयेत् अथो ज्वल न संघाशम् चामीकर विभूषितम् तमारुरूहतु तूर्णम् भ्रातरो रामलक्ष्मणौ सीता तृतीयान् आरूढन् धृक् रथम् अचोदयेत् सुमन्त्रे सम्मता न प्रयाते तु महारण्यम् चिररात्राय राघवे बभूव नगरे मूर्च्छ बलमूर्च्छ जनस्य च तत् महाकुलसम्भ्रान्तम् मत्तसङ्कुपितद्धिपम् यसिञ्चित निर्घोषम् पुरम् मासीन्महास्वनम् सतस्य बालवृद्धा स पुरी परमपीडिता रामम् एवाभिदुद्रव धर्मार्थ सलिलम् यथा पार्श्वतः पृच्छतः चापि लम्बमाना तदुन्मुख बाष्पे पूर्णमुख सर्वे तम् उचुर्भूषित भूषणेश्वनः संयच्छ वाजिनाम् रश्मिन् हि शनैः मुखं द्रक्ष्याम रामस्य भविष्यति आयसम् हृदयम् नौनम् राम मातुर संशयम् यद्देव गर्भ प्रतिमे परं ज्ञाति न भिद्यते कृतकृत्या हि वैदेहि च एवानुगता अहो लक्ष्मणसिद्धार्थ सततं प्रियवादिनम् भ्रातरम् देव सङ्काशम् यत् तम् हिते बुद्धि एष चाभ्युदयो महन् एष स्वर्गस्य मार्गश्च यदेन अनुगच्छसि एवम् वदन्तस्ते सोढुम् न शेकूर्वाश्वमागतम् न राष्ट्रम् अनुगच्छन्ति प्रियम् भिक्ष्वः कुनन्दनम् अथ राजावृतश्रीभि दीनाभि दीनचेतनः निर्जगाम प्रियम् पुत्रम् द्रक्ष्या भीति ब्रुवन् बृहत् शुश्रुवेतश्रीणाम् मृदतीनाम् महसुनः यथानादः करेणूनाम् बद्धे महति कुञ्जरे पिता ही राजा काकुत्स श्रीमान् सन्न पूर्ण परिपूर्ण शशीकाले ग्रहेणोपृतो यथा स च श्रीमान् अचिन्त्यात्मा रामो दशरथात्मजः सूतं संचोदयामास त्वरितं बाह्यतामिति रामो याहेति तं सूतं तिष्ठेति च जन तथा उभयं कर्तुं मध्वनिचोदितः निर्गच्छति महबहो रामे पौरजनाश्रुभिः पतितै अभ्यवहितम् प्रणनाश महीरजः रुदिताश्रु परिध्यूनम् हाहाकृतम् अचेतनम् प्रयाणे राघवस्यासीत् परम्परमपीडितम् तुस्रावनयनेत्रीणाम् अस्र मायासम्भवम् मीनसङ्कोभचरितै सविलम् पङ्कजैरिवै दृष्टा तूर् नृपति श्रीमान् एकचित्तगतम् पुरम् निपपातैव दुःखेन कृतमूल इव द्रुमः ततो हृहलाशब्दो यज्ञे रामस्य पृष्ठतः नराणां प्रेक्ष्य राजानम् सीदन्तम् भृशदुःखितम् हा रामेति ये चापरे अन्तपुरसुमृद्धम् च क्रोशन्तम् पर्यदेवयन् अन्वीक्षमाणो राम तु विषण्णम् भ्रान्तचेतसम् राजानम् मातरम् चैव ददर्शानो गतो पथि पाशेन किशोरो मातरम् यथा धर्मपाशेन संयुक्तः प्रकाशम् नाभ्युदैक्षत पदाति नोचयानार्हौ दुःखार्हौ सुखोचितः दृष्ट्वा संचोदयामास शीघ्रम् याहीति सारथिम् न हि दुःखयम् दर्शनम् पितुः मातुः च स्तोत्रे नुन्न इव द्विपहे प्रत्यकारम् विवा यान्ति स वत्सा वत्स गृणात् बद्धवत्सा यथा धेनु राममाताभ्यधावत् तथा रुदन्तीम् कौसल्याम् रथम् तम् अनुधावतीम् क्रोशन्तीम् राम रामेति हासी ते, ते लक्ष्मणेति राम लक्ष्मणसीतार्थम् स्रवन्तीम् वारिनेत्रजम् अचक्रोत्प्रैक्षत सतताम् नृत्यन्तीमिव मातरम् तिष्ठयति राजा चक्रोश याहि याहीति राघव सुमन्त्रस्य बहू आत्मा चक्रयोरिवचान्तर नाश्रोषमिति राजानम् उपालब्धोऽपि वक्षसि चिरम् दुःखस्य पापीष्ठम् इति राम तमब्रवीत् स रामस्य वचक कुर्वन् अनुज्ञाप्य च तम् जनम् व्रजतोऽपि हयान् शीघ्रम् चोदयामासारथी निवर्तत जनो राज्ञौ रामम् कृत्वा प्रदक्षिणम् मनसाप्याशुवेगेन न निवर्तत यम् विच्छेत् पुनरायान्तम् नैनम् दूरम् अनुव्रजेत् इत्यमात्या महाराजम् ऊचुर्दशरथम् वच तेषाम् वच सर्वगुणोपपन्न तस्मिन्न गात्रे प्रविशन्नरूप निशम्य राजा कृपणसभार्यो व्यवस्थितस्तम् इत्याश्री श्रीमद् रामायणे वाल्मिके अधिकाव्य अयोध्याखण्डे चत्वारिंशत् सर्गः श्रीसीतारामचन्द्रार्पणमस्तु